श्रीमद्भागवत् महापुराणं सप्तं स्कन्धम् अथ तृतीयोऽध्यायः हिरण्यकसिपु की तपस्या ओर्वरप्राप्तिं नारदुवाच हिरण्यकसिपू राजन्न जेयम् अजरामरम् आत्मानम् अप्रतिद्वन्द्वम् एकराजं व्यधिस्सत स तेऽपि मन्दरद्रोण्यां तपः परमदारुणम् ऋजुबाहुर्नभो दृष्टि पादाङ्गुष्ठासिता मणिः जटादिधीतिभिरेजे संवर्तार्क इवाशुभि तस्मिन् तपस्तप्यमाने देवास्थानानि भेजिरे तस्य मूर्धसमुद्भूतसाधुमोऽग्ने तपोमयः तिर्गं तिर्यगूर्ध्वम् असो लोकान् न तपद्ये स्वकीरितः चक्षुर्भुर्नद्यो जन्वन्तसद्वीपादिश्च चालभृ निपेतु सङ्ग्रहास्ताराज्यज्ज्वलुश्च दिशोदश तेन तप्तादिवं त्यक्त्वा ब्रह्मलोकं ययुशिराः धात्रे विज्ञापयामासुरदेवदेव जगत्पते दयत्रीन्द्रतपसा तप्तादिविस्थातुं न शक्नुमः तस्य चोपशमं भूमन् विधेहि यदि मन्यसे लोकान् यावण्यक्षन्ति बलिहारा तवाभिभू तस्यायं किल सङ्कल्पचरतो दुश्चरतं तपः श्रूयतां केन वितीतं तथां तवाथापि निवेदितः दृष्ट्वा चराचरमिदं तपोयोगसमाधिनाम् अध्यास्ते सर्वधिष्णेभ्य परमेष्ठी निजासनं तदहं वर्धमानेन तपोयोगसमाधिनां कालात्मनोऽश्च नित्यत्वान् साधिष्ये तथात्मनः अन्यथेदं विधास्तेऽहम् अयथापूर्वमोजाम् किमन्यै कालनिर्धूतै कल्पान्ते वैष्णुवादिभिः इति शुश्रुं निर्बन्धं तपपरमासित विधस्वानन्तरं युक्तं शयं त्रिभुवेश्वरं तवासनं त्रिजङ्गमां त्वारमेष्टं जगत्पते भवाय श्रीयश्रीभुत्यै क्षेमाय विजयाय च इति विज्ञापितो देवैर्भगवानात्मभुर्नृपं परितो भृगुदक्षाद्यै यो दैत्येश्वराश्रमं न दददर्श प्रतिक्षन्नं वाल्मीकं वल्मीकतृणकीचकैः पिपीलकाभिराचिर्णं मेदस्वङ्गमांसिशोढितं तपन्तं तपसा लोकान् यथा भ्राविहितं विलक्ष्य विस्मितप्राहप्रहसंहंसमाहनः ब्रह्मोवाच उत्तिष्ठोतिष्ठभद्रं ते तपसिद्धोऽसि काश्यप वरदोऽहमुं प्राप्तो व्रियतामिप्सितो वरः अद्राक्षमहमेत्तत्ते सिस्तारं महदद्भुतं दंशभक्षेतदेहस्य प्राणाश स्थी सु नैतत्पूर्वर्षयश्च क्रुर्ण करिष्यन्ते चापरे निर्बुधा इन्द्रये प्राणान् को वै दिव्यसमाशतं व्यवसायेन तेन मनश्विनां तपोनिष्ठेन भवता जितोऽयं दितिनन्दनं ततस्तम् आशिष सर्वा ददाम्यसुरपुङ्गव मर्त्यस्य ते अमर्त्यस्य दर्शनं न फलं मम नारदुवाच इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीडिकैः कमण्डलो जले नोक्ष दिव्येनावोघराधसां स तत्कीचकं वल्मीकां सह ओजो बलान्वितः सर्वावयसम्पन्नो भज्रं सङ्घनो युवाम् उत्थितस्तप्त हेमा भो विभावां विभावेधसृक्षाम्बरे देवं भंसवाहमवस्थितं न नाम शिर्षा भूमौ तद्दर्शनं हो शवः उत्थाय प्राञ्जलि प्रण्व इक्षमाणोऽ दिशा विभुं हर्षाश्रू पुलकोद्भुभेदो गिरागद्गदया गृणात् हिरण्यकसिपूर्वाच कल्पान्ते कालशिष्टेन योन्ध्येन तमसा वृतम् अभिव्यनगं जगदितं स्वयं ज्योतिश्वरोचिषाम् आत्मना तिवृता चेदं सृजत्यम्बतेरुम्पते रज सत्त्वतमोधाम्ने पराय महते नमः नमः आद्याय बीजाय ज्ञानविज्ञानमूर्तये प्राणेन्द्रियमनो बुद्धिविकारै व्यग्मीयुषे त्वमिषिषे जगस्तूषस्य प्राणीदमुख्येन पति प्रजानां चित्तस्य चित्ते मनिन्द्रियाणां पतिर्महान्भूतगुणाशयेषः त्वं सप्त तन्तुन् वितनोऽसि नन्तन्वां त्रैया चातुर्होतृकविद्यया च त्वमेक आत्मात्मवतामनादे अनन्तपारकविरन्तरात्मा तमेव कालो निमसो जनानाम् आयुर्लवाद्यावयवैक्षिणोषि कूटस्थ आत्मा परमेशजो महान् त्वं जीवलोकस्य च जीव आत्मा त्वत् परं परमप्यनेज परम तेजच्च किञ्चिन् व्यतिरिक्तमस्ति विद्याखिलास्ते तनवश्च सर्वाहि गर्भोऽसि बृहत्प्रपिष्ट व्यक्तं विभो स्थूलमिदं शरीरं येनन्द्रियप्राणमनोगुणात्वं मुङ्क्षे सितो धामनि पारमेशे अव्यक्त आत्मा पुरुषपुराणः अनन्ताव्यक्तरूपेण येनेदम् अखिलं ततम् चिदक्षिञ्चिच्छङ्क्तियुक्ताय तस्मै भगवते नमः यदि दाशस्य भीमतान् वरान्वे वरदोत्तमः भूतेभ्यस्त्वदिन्द्वे सृष्टेभ्यो मृत्युर्मां भून् मम प्रभो नान्तर्बहिदिवा नक्तमन्यस्मादपि चायुधैः न भूमौ नाम्बरे मृत्युर्न नरैर्ण यशुभिर्वाशुमद्भिर्वासुरासुरमहोरगैः अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देशिणाम् सर्वेषां लोकपालानां महिमानं यथात्मनः तपो योगप्रभावाणां जन्यष्यति करिते ते श्रीमद्भागुते महापुराणे चैतायां सप्तं रण्यकस्य पो वर्याचनं नाम